अम्बतिरण्डावद् दशकम् ब्रह्माविन् वत्सापकार अन्यावदारनिकरेष्व निरीक्षितम् ते भूमातिरेकमविवीक्ष्य तदागमोक्षे ब्रह्मा परीक्षितुमनासपरोक्षभावम् निन्येत वत्सकगणान् प्रवितत्यमायाम् वत्सा न वीक्ष विभ्ये पशुपोत्तरेत आनेतु कामयि वदातृमतानुवर्ती त्वम् सामि भुक्तकवलो गदवांस्तदानि भुक्तांस्तिरोदित सरोजभवकुमारान् वत्सायितस्तदनुगो बगणायितस्त्वम् चिक्याति बाण्टमुरलीकगवलादिरूप भ्राग्वत् विकृत्य विपिनेषु शिराय सायम् त्वम् माय यात बहुता व्रजमाययात त्वामेव शिक्यकवलादिमयम् ददा नो भूयस्त्वमेव पशुवत्सकबालरूप गोरूपिणीबिरभिगोपवधो मयी भी आसादिदोऽसि जननी प्रतिप्रकर्षात् जीवम् हि कञ्चितभिमानवशात्स्वकीयम् मत्वा तनूज इति रागबरम् वहन्त्य आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीतिम् युयुर्न कियतीवनिताश्वगाभ एवम् प्रतिक्षणविजृम्बितकर्षबार निःशेषगोपगणलालितभूरिमूर्तिम् मग्रजोऽपि बुभुते किलवत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेष वर्षावदौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे दृहिणे विमूढे भ्राद्रीदृशप्रतिनवान् मकुडाङ्गदाति प्रत्येकमेव कमला परिलालिताङ्गान् भोगीन्द्रभोगशयना भो नयनाभिरामान् लीलानि मीलितदृशः स नगाति योगी व्या सेवितान् कमलभूर्भवतो ददर्श नारायणाकृतिमसङ्क्युतमाम् निरीक्ष्य सर्वत्र सेवकमपि स्वमशेष्य दात मायानिमग्नहृदयो विमुमोकयाव तदा कपलार्धवाणी नश्यन्मदेतनुविश्वपतिम् मुहुस्त्वाम् नत्वा च नूतवतिदादरिदामयाते पोतै समम् प्रमुदितै प्रविशन्निकेतम् बादालयादिब विपो परिपाहिरोगा कृष्ण जय कृष्ण जय कृष्णजय कृष्णकृष्ण कृष्णकृष्ण कृष्णजय